अथ एकसप्ततम् दशकम् यत्नेषु सर्वेष्वपि नावकेशी केशी, केशी स भोजेषितुरिष्टबन्धुः त्वम् सिन्धुजावाप्यैतीव मत्वा सम्प्राप्तवान् सिन्धुजवाजिरूपः गन्धर्वतामेष गतोऽपि रोक्षैर्नादैः समुद्वेजित सर्वलोकः भवद्विलोकावधि गोपवाटीम् प्रमर्द्यपापः तार्क्ष्यार्पिताम्घ्रेस्तव तार्क्ष्य एष चिक्षेपवक्षो भुवि नामपादम् भृगोः पदाघातकथाम् निशम्य स्वेनापि शक्यम् तदितीव मोहात् प्रवञ्चयन्नस्य खुराञ्चलम् द्रागमुम् च चिक्षेपिथ दूरदूरम् सम्मूर्च्छितोऽपि ह्यति मूर्च्छितेन क्रोधोष्मणा खादितुमाद्रुतस्त्वाम् त्वम् वाह दण्डे कृतधीश्च वाहा दण्डम् यथास्तस्य मुखे तदानीम् तद्वृत्तिरुद्धश्वसनो गतासु स्वप्ती भवन्नप्ययमैक्यमागात् प्रसादके नोत् नैवाश्वमेधे कृते त्वया हर्षवशात् सुरेन्द्रास्त्वाम् तुष्टुवुः केशव संसायते शौरिसुतत्त्वमुक्त्वा तम् तद्वधोत्कम् प्रतिरुन्ध्य वाचा प्राप्तेन के शिक्षपणावसाने श्रीनारदेन त्वमभिष्टुतो भूः कदापि गोपैः सह का ननान्ते विलायनक्रीडनलोलुपम् त्वाम् व्योमाभिधो व्योमचरोपरोधी स चोरपालायितवल्लवेषु चोरायितो गोपशिशून् पशूंश्च गुहासु कृत्वापि दधे शिलाभिस्त्वया च बुद्ध्वा परिमर्दितोऽभूत् एवंविधैश्चाद्भुतकेलिभेदैरानन्दमूर्च्छामतुलम् व्रजस्य पदे पदे नूतनयन्नसीमम् परात्मरूपिन् पवने शपायाः इत्येकसप्ततम् दशकम्